सद्यः विरद्धर्युः अच्युतपादाग्नेत् अच्युतमना उपभक्ता अनाधिष्यश्च प्रतिधृष्यश्च अयास्य उद्गाता वाचस्पते हृद्भिधेनामन्य विधेमते नाम विधेत्रमस्माकम् नाम मादे व्यस्तम् दृश्यति मामनुष्यः नमो दिवे नम पृथिव्यै स्वाहा वाग्होता दीक्षावत्नी पातो धर्युः आपोऽभिकरः मनोहरिः तपसिजहो मे भोर्भुवः सुवः ब्रह्मस्वयम्भो ब्रह्मणे स्वयम्भुवे स्वाहा ब्राह्मण स यज्ञः समे ददातु प्रजाम् पशोन् पुष्टञ्जसः यज्ञष्टमे भूयात् अग्रद्विभोगा स भर्ता समे ददातु प्रजाम् पशोन् पुष्टञ्जसः भर्ता च मे भूयात् पृथिवीत् विभोता स प्रतिष्ठा समे स विष्ठाः समे ददातु प्रजाम् पशोन्वृष्टञ्जसः पिष्ठाश्च मे भूयात् वायः पञ्चभोता स प्राणः समे ददातु प्रजाम् पशोन्वृष्टैजसः प्राणश्च मे भूयात् चन्द्रमा षड्भोता सर्दोन्कल्पयादे समे अन्नकम् सप्तहोता स प्राणः समे ददातु प्रजाम् पशोन्मुष्टैयसः प्राणस्य च मे प्राणो भूयात् यो रष्टहोता सोमादृश्यः समे ददातु प्रजाम् पशोन्मुष्टैः सः अनादृश्यश्च भूयासम् आदित्योऽनवहोता तेजस्वै च भूयासम् प्रजापतरुजशहोता स इदम् सर्वम् स मे ददातु प्रजान्मुष्टञ्जः सर्वम् च मे भूयात् अग्नियजर्भिः सविता स्तोमैः इन्द्रमुत्सामदैः मित्रावरुणावासिषाः अङ्गिरसोऽष्णे घोषयबर्हि सो अविर्वेद्याः सोमोदीक्षयाः कष्टेघेन विष्णेन बसवार्येण आदित्यादक्षिणाभिः विश्वे देवामूर्जा घोषाश्वकाकारेण बृहस्पतिपुरोधयाः प्रजापतिरुद्दीथेन अन्तरिक्षम् पवित्रेण वायुःपात्रैः अहज्ञश्रद्धया सेनेन्द्रस्य धेन बृहस्पतेः पथ्याभूष्णः वाग्वायोः प्रेक्षासोमस्य पृथिव्यग्नेः वसूनाम् गायत्री रुद्राणाम् दृष्टग आदित्यानाम् जगति कृष्णोर्णष्टगुणस्य विराट् यज्ञस्य पङ्क्तेः प्रजापते अरुणोजेः मित्रस्य श्रद्धा हविधप्रतोजिः सौर्यस्य मरेजेः चन्द्रमसौरोहिणी गृहेणामरुन्धते पर्जन्यस्य विद्युत् तदस्वदिशः तदस्ववान्तरदिशाः अहस्तरात्रिश्च ऋषश्च मृष्टिश्च ऋषश्चापुजश्च आपस्त्रौढुजयश्च ऊर्क्षसौन्द्रता च देवानाम् पत्नयः एवस्यत्वादविदुःप्रसवे अश्विनाद्बाहुभ्याम् उष्णास्ताभ्याम् प्रतिगृह्णामि राजा त्वावरुणामेदक्षिणे गृहेण्यम् एनामदत्तमस्याम् अयो धात्रे अयोमह्यमस्तु प्रतिगृहेत्रे कैलङ्गस्मादात् कामः कामाय कामक्कामाया दाता कामप्रतिगृहीता कामकम् समुद्रमाविश कामेण त्वा प्रतिगृह्णामि कामैपत्ते एषा ते कामदक्षिणा उत्तानस्वाङ्गेरसः प्रतिगृह्णात् सोमाय वासः रुद्रायकाम् वरुणायाश्वम् प्रजापतये पुरुषम् मनवे तर्पम् पश्वेजाम् ओष्णेविम् निनृत्याश्वतलकर्धभौ किमोदास्तिनम् अन्धर्वाप्सराभ्यस्रगलङ्करणे विश्वेभ्यो देवेभ्यो धान्यम् वाचयन्नम् ब्रह्मणवोदनम् समुद्रायामः उक्तानायाङ्गे रथायानः वैश्वानरागरथम् यैश्वानरः प्रत्नथानागमानुपत् यः पृष्ठम् बन्धमानः सुमन्महे तव ब्रहज्जनयन्तवेधनम् समानमद्मा पर्याग्रविरे राजा विदक्षिणे वैश्वानरायथम् एनामृदत्तमस्यात्रेग्रहेत्रे कैजम् कस्मादान् कामः कामाय कामो दाता कामः प्रतिगृहेता कामकुम्समुद्रमाविश कामेन त्वात् प्रतिगृह्णामि त्तेः एषा चे कामदक्षिणा उत्तानस्त्वाङ्गे रसः प्रतिगृह्णादो सुवर्णम् धर्मम् परिवेदेन इन्द्रस्यात्मानन्दसथाचरन्तम् अन्तः समुद्रे मनसाचरन्तम् हनुमान् रविन्दद्वशहोदारमर्णेः अन्तःप्रविष्टशास्त्राजनानाम् एकः सन् बहुधा विचारः शतकम् शुक्राणि यत्रैकम् भवन्ति सर्वे वेदा यत्रैकम् भवन्ति सर्वे अवदारो यत्रैकम् भवन्ति समानजेन आत्मा जनानाम् अन्तःप्रविष्टः शास्त्राजनानाम् सर्वाः आत्मा सर्वाः प्रजायत्रैकम् भवन्ति चतुर अवदारो यत्र सम्पदम् गच्छन्ति देवैः समानजेन आत्माजनानाम् ब्रह्मेन्द्रमग्निम् दिवात्मानकुम् सवितारम् बृहस्पतिम् चतुरहोतारम् प्रतिशो नकृतम् वाचा वेर्यन्तपसान्वविते अन्तःप्रविष्टम् कर्तारमेतम् प्रष्टारकम् रूपाणि विकर्बन्तम् विपश्यम् अमुदस्य प्राणैयैक्यमेतम् चतुरहोतु नामात्मानम् कवयुनि चित्युः अन्तः प्रविष्टम् कर्तारमेतम् देवानाम् बन्धुनिहितम् गुहारो अमृतेन कृत्तै यज्ञमेतम् चतुर्होतनामात्मानम् कवयानुचिक्यः शतम् निरः परिवेदविश्वा विश्ववालः विश्वमिदम् मृणाति इन्द्रस्यात्मानि हितः पञ्च होता अमृतम् देवानामायः प्रजानाम् पदे कवयूनिवान् याण्डकोशे भुवनम् विभर्ति अनभिन्नस्तकालविचष्टे यस्याण्डकोशपुंसत्वमाहुप्राणमुड्वम् तेन कृत्वा मृतेन अहमस्मि सुवर्णम् कोशकुम् रजसापलीवदम् देवानाम् वसुधानीम् विराजम् अमृतस्य भोर्णान्तामुकलाम् केन तव उत वा षड्ढा मनसोदगुप्ता तम् षड्वारपदवेः कल्पमानम् रथस्य पथे कपयानिपान्ते अन्धः प्रविष्टम् कर्तारमेतम् अन्तश्चन्द्रमसि मनसाचरन्तम् सहैव सन्तदेवाः इन्द्रस्यात्मान सदाचरन्तम् इन्द्राराजा जगतायैशोदासप्तथा विमुक्तः परेण अन्तराजीते मदाचरन्तम् देवानागमहृदयम् ब्रह्मान्वविन्दते ब्रह्मेतद्ब्रह्मणबुज्यभारन्तकम् शरीरस्य मध्ये बहुलागश्रियम् बह्वस्वामिन्द्रगोमतीम् अच्युताम् बहुलागश्रियम् सहैव श्रीत्तमः हेरिन्द्राय विन्दते बह्वस्वामिन्द्रगोमते अच्युताम् बहुलागश्रियम् मह्यमिन्द्रो नियच्छत् शतकंशदास्त्ययुक्ताहरीणाम् अर्वानायादवसुभे अश्विलिन्द्रः बहुलागश्रियम् अश्विलन्द्रः सिता मे नियच्छत् कृतन्तेजोमदिन्द्रियम् मय्ययमद्यर्थधातु हरिः प्रसङ्गः पठरे सुपर्णः निविक्षयो नभसागयेति स इन्द्रः कामवरम् दधातु पञ्चारञ्चक्रम् परिवर्तते पुसु हिरण्यज्यस्य मध्ये अजस्रञ्जोन्नपसादर्पजयति समगिन्तः कामवरम् ददातु सप्तयुञ्जन्त्यसमेकचक्रम् एको अश्वभहसिम् येने महाविश्वाभुवनानि तस्तुः भद्रम् वश्यम् दपसे दुरग्रे तपो अतः क्षत्रम् पदमोजस्य तदस्मे देवाभिसन्न श्वेतकम् रश्मिज्यमानम् अभानस्य गोपा इन्द्रनिजक्यः परमे व्योमन् रोहिणेऽप्यङ्गला एकरूपाः क्षरन्द्येऽप्यङ्गला एकरूपाः शतकम् सहस्राणि प्रयुतानि नाव्यानाम् अय्यश्वेतो रश्मेः परि प्रजाम् पशोऽन्धनानि अस्माकम् ददातु श्वेतोरश्मिपरिधर्वम् बभूव स्वर्णाह्यम् पशोनिश्वरूपान् पतङ्गमत्तमसुरस्य मायः कृता पश्यन्ति मनसा मनीषिणः समुद्रे अन्धः कपयो विचक्षते मरेचेन पदमिच्छन्ति वेधसः पतङ्गोवाच मनसा बिहर्ति धर्वोपदग्रथे अन्धः कान्द्योतमानागस्पर्यम् मनीषा निपान्ति ये ग्राम्याः पशव विश्वरूपाः विरोपाः सन्तापगुभेकरूपाः अज्ञस्तादेवः प्रजापदप्रजयागम् विधानः वेदज्ञस्तुकेऽस्तुके योमस्माधुनियश्च प्रयज्ञपचन्ति ये ग्राम्याः पशव विश्वरूपाः विरोपाः सन्तापगुभैकरूपाः तेषाम् सप्तानामिकलन्तिरस्तु आयस्पोषाय सुप्रजास्त्वाय सुवीर्याय जहारण्याः पशवा विश्वरूपाः विरूपाः सन्तापबुधैकरूपाः वायुस्प्राज्ञम् अग्रे प्रमोमाक्तु देवः प्रजापतिप्रजयासंविदानः इदायै सप्तम् त्रिरूपाः सन्तो बहुधैकरूपाः एषाकम् सप्तानाम् इहरन्तिरस्तो रायस्तोषाय सुप्रजास्ताय सुबेव्याय सहस्रशीर्षः पुरुषः सहस्राक्षःसहस्रपात् स्वभोनिम् विश्वता भृत्वा अत्यदष्टद्दशाम् गुलाम् पुरुषे वेदकम् सर्वम् यद्भूतम् यच्च भव्यम् गुदामदत्तशेषानः निरन्येना निरोहति एतावानस्य महिमा ततोऽध्यायागश्च पोरुषः पादो अस्य विश्वाभूतानि त्रिपादस्यामृतम् देहे त्रिपादो ऋपुदे पुरुषः पादोसेहाभवात् पुनः ततो विश्वन्यक्रामदे सा अस्माद्विराडजायत विराजोऽधिपोरुषः स्वजातोऽ्यरिच्छता पश्चाद्वो विमथा पुरः यत्पुरुषेण देवायज्ञमतन्वतः देवा स्याधीताज्यम् इरः सप्ता स्यादन्वरिषयः सप्तसमिधकृताः देवायद्यज्ञम् तन्वानाः अपध्यन् पुरुषम् वशम् नैयज्ञम् परिहृप्रोक्षन् पुरुषम् चागमकृतः येन देवायजन्ता साध्याये तस्मात् यज्ञात्सर्वभूतः अम्भृतम् मृताज्यम् अशोकस्तागश्चक्लेवायव्यान् आरण्यान्ग्राम्याश्च तस्मा यज्ञात् सर्वभूतः ऋजःसामान्यजज्ञिरे छन्दागंसिजज्ञरे तस्मात् त्रजस्तस्मादजायत तस्मादश्वा अजायन्त एकैको एक भयादः गावोहजज्ञरे तस्मात् तस्माज्जाताजापयः यत्पुरुषम् व्यदथुः कविधाव्यकल्पयन् मुख्यमस्य तौ बाहो कावोरोपादा उच्येते ब्राह्मणो आस्य मुखमासेव बाहो राजन्यः कृतः ओरोदस्य यद्वैष्यः अभ्यागम् शोद्रोऽजायत रन्द्रमा मनसो जातः चक्षुः सौर्यजायत मुखायुन्द्रश्चज्ञश्च प्राणाद्वायो जायता नाभ्यादिक्षम् शेषणाद्योः समवर्तत पद्भ्याम्भवमृद्विसहस्राद्भार तथा लोकाकम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवन्महस्तु पारे सर्वाणि रूपाणि विचित्यधीरः नामानि कृत्वाभिवदनेरा स्मेर धाता पुरस्ताद्यमुदान् प्रतिस्रः तमेवम् विद्वानमु नान्यपन्थायनाय विद्यते ज्ञमयन्त देवाः ता धर्माणि प्रथमान्यासन् हनाकम् महिमानः स्वगन्ते यत्र पूर्वे साध्याः सन्ति देवाः अभ्यः सम्बोधः विश्वकर्मण समवर्तताधि तस्य प्रक्ता विदशद्रुपमेति तद्दुरुषस्य विश्वमाजानमग्रे एषाहमेतम् पुरुषम् महान्तम् आदिद्रवन्नन्तमसत्परस्ता तमेवम् रीता नवृतेह भवति नान्यपन्थानाय प्रजापतिश्चर विगर्भे अन्तः अजायमानामबुधा विजायते तस्य धीराः परिजानन्ति योनिम् वैकीनाम् पदमिच्छन्ति मेधदः यो देवेभ्याजपदे यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमोषाय ब्राह्मये इदम् ब्राह्मम् जनयन्तः देवाग्रे पुनब्रुवन् यस्तम् ब्राह्मणो विद्यात् तस्य देवासन्वशे श्रीश्च दे अहोरात्रे पार्श्वे नक्षत्राणि रूपान् अश्विनौ व्यात्तम् इष्टम् मनिषा न अमुम् मनिषाणा सर्वम् मनिषाणा भर्ता सन्ध्रियमाणो विभक्ति एको देवो बहुधा निविष्टः यदा भारम् तन्त्रयते स भक्तम् निधाय पुनरस्तमेति तमेव मृत्युमदन्तमाहुः तम् भक्तारन्तमुगोब्दारमाहुः तम सभतो भ्रियमानाभिभक्ति भी यगेण सत्येन भर्तुम् सद्यो जातमुदजः तेजः जाहा। उतो जलन्तजः त्येजम् उतो बहुनेगमहर्जहार अतन्त्रो देवः सरमेव प्रार्थः यस्तद्वे र बभूव सन्धान्संसधे ब्रह्मणेजः रमते तस्मिन्मुदजीर्णेषयाने नैनम् जहाच्यहस्वपूर्व्येषु वामा भोसर्वाश्चरन्ति जानतिवयसा पुरानाः त्वम्भक्तारिष्वाः प्रजानाः अय्यज्ञस्तमुसोमः हवदेवाः वमायन्ति सर्वे त्वमेकोऽधिहो न प्रविष्टः नमस्तेऽस्तु सुखवो मयेधि नमो वामस्तुम् हवम् मे प्राणापानावधिलगम् सञ्चरन् यामि वा ब्रह्मणा चूर्तमेतम् योमान्द्वेषुवाणा प्राणापानो संविधानो जहितम् अमुष्या तु नामालङ्कसाखा कम्ये देवा ब्रह्मणा संविधानो वधाय दत्तन्तमहम्हनामे असज्जानसदभोगानसौ गोप अस्या यदा भारम् तन्त्रयते अथभक्तम् परास्य भारम् पुनरस्तमेते अद्वै त्वम् प्राणो अभवः महान् भोगप्रजापतेः भुजः करिष्यमाणः यद्देवान् प्राणयो न वा हरिगुंहरम् कमनीयम् च देवाः विष्पश्चेशानाम् ऋणपम्मतीनाम् ब्रह्मसरोपमनमेतमागात् हरिणम् मा विवधेर्विक्रमस्व माशिला प्रजाम् मामे देधायुग्रहा विचक्षसन्त्वा विधाभिधे वा सद्यश्च कमानाय प्रवेपानाय मृत्यवे रस्माशा शृण्वन् कामेनाजनयन् पुनः कामेण का मेकामागाद तदया दृषजयन् मृत्योः यदमेधा पदप्रियम् तदैतोपमामभिः परम् मृत्यो न ैतराजय चक्षुष्पते ब्रवीमे मानः प्रजागमलेषनसा वन्दमानः नाथमानामृतभञ्जर्जनेनाम् यः प्रजानामे करान्मानुषीनाम् मृत्युञ्जय प्रथमजामृतस्य करणिर्विश्वदर्श्य विष्कृदर्शिशौर्यश्वमाभाशिरोचनम् यत्वा ब्राजस्पतयषेयोसूर्यायत्वा भ्राजस्पते आद्यायस्वचिन्दमतोमविश्वाभिरोतिभिः भवान् स प्रथस्तमः ये यष्टे य पूर्वतरामश्यन्मिच्छन् दे मृषसम् मर्त्याः अस्माभिन्न प्रतिरक्ष्या भूतो तेयम् देयापरेषु पश्यान् ज्योतिष्पदेन् द्वाचार्यामि ज्योतिष्कृतम् द्वासादयामि च्योगर्मिलम् द्वाचारयामि भास्पदेन् द्वाधारयामि स्वरन्देन् द्वादादयामि मन्मनाभवन्देन् द्वाधायामि हेत्यमानान् त्वाचारयामि रोचमानान् त्वाधादयामिरस्रान् त्वाचारयामि प्रत्योतिषम् त्वा चालयामि बोधयन्देन् द्वा चालयामि आग्रजेन् द्वा चालयामि प्रयासाय स्वाहा यासाय स्वाहा नियासाय स्वाहा नियासाय स्वाहो ध्यादाय स्वाहा वयासाय स्वाहा विजे स्वाहा शोधाय स्वाहा तप्यत्रये स्वाहा चिन्तकम् सन्तारेण भवयज्ञा रुद्रन्तनिम् नाम शुपदिस्थोलहृदयेण देवहृदयेन रुद्रम् लोहितेन सर्वम् मनस्नाभ्याम् महादेवमन्त्रपाष्टगणकुम् शृङ्गेन कोश्याभ्याच्छय्यो रावणे महे गाकञ्यज्ञाय गाकञ्यज्ञपदये देवे ये स्वस्त्रिरस्तु नः स्वस्तिर्मानुजाभ्यः भोद्भ्लिकादिभेणजम् धर्णास्तपदे सञ्चुतस्पदे ओम् शाम् दिश्राम् दिःश्रान्तिः ओम् नमो नमो नन्दो ओम् शाम् दिश्राम् दिःश्रान्तिः नमो वाचे या चोदिता या चानुजितादस्ते वाचे नमो नमो वाचे नमो वाचस्पदयेणभ्य मन्त्रगभ्य मन्त्रपदेभ्य मा मामृय मन्त्रगुदा मन्त्रपदयः परादुर्मामृन् मन्त्रगुदा मन्त्रपदे वाचमद्याजगम् शिवामदस्तान् देवेभ्यः शर्म वेभ्यो शर्म पृथिवे शर्म विश्वभिदम् जगत् कर्मजन्द्रष्टो यश्च धर्म ब्रह्म प्रजापते भोगम् वदिष्य भुवनम् वदिष्य तेजोपदिश्य विशपदिष्ट्ये गपोपदिश्ये ब्रह्म वदिष्ये सत्यम् वदिष्य तस्माहमिदमुपस्तरण उपस्तृणमुपस्तरणम् मे प्रजाये पुशूनाम् भूयादुपस्तरणमहम् प्रजाये पुशूनाम् भूयादम् प्राणापानो मृत्युर्मापादम् प्राणापानो मामाहादिष्टम् मधुमनिष्ये मधुजनिष्ये मसु वक्ष्यामि वसुवदिष्यामि मधुमदेयम् देवेभ्य ्या मनुष्येभ्यस्तम् वा देवावन्तशोभायै वितरानुमदन्तो शान्तिःशान्तिःशान्तिः युञ्जते मनहुतयुञ्जते धियः विप्राविप्रस्यत्रादि देवयुनाविदे गयिते मयि देवस्य देवस्त्त्त च विदः परिष्कृतिः देवस्यत्वात् विदप्रभवे अश्वित् बाहुभ्याः ओस्मास्ताभ्यामाददे अभ्रिलसि नारिरसि अर्धरकृदेवेभ्यः उत्तिष्ठब्रह्मणस्पदे हे वयन्तस्त्वयमहे उपयन्तु मरुदः सुदानवः इन्द्रप्राशोर्भवासदाः प्रयुब्रह्मणस्पतिः वेदसोदृदाः अच्छा वेदन्नरियम् मन्दिराससम् देवाय ज्ञयन्तु मह देवे हेद्या वा अनुपेमपुंसा निर्ध्यासमद्य नखस्य शिरः मखायत्वा मखस्य त्वाचेष्णे हि यः निर्ध्यासमद्य नखस्य शिरः मखायत्वा मखस्य त्वाचेष्णे देवे बम्बेरस्य भवतस्य प्रथमचारुदावरेः अध्यासमद्य नखः सिरः मखायत्वा मखस्यत्वाशीर्ष्णे इन्द्रस्य उजोधि निर्ध्यासमद्या मखः शिरः मखायत्वा मखस्यत्वाशीर्ष्णे अग्निजाधिप्रजापदेतः निर्ध्यासमद्या मखःशिरः मखायत्वा मखस्यत्वाशीर्ष्णे आयुद्धेः प्रानन्धेः अपानन्धेः व्यानन्धेः चक्षुर्धेः श्रोक्रन्धेः मनाधे हिवाचन्धेः आत्मानन्धेः प्रतिष्ठान्धेः मान्धे हिमयुधेः मधुत्वा मधुराकरोतु मघश्रिशिरोधि यज्ञस्य पते स्थः गायत्रेण त्वा छन्दसा करोमि तेष्टुभेण त्वा छन्दसा करोमि जागदेन त्वा छन्दसा करोमि मघश्चराश्वासि अतिदिष्टे पान्देन षन्दसा सूर्यस्य हरसाश्राय मकोहे कृष्ण आश्वस्य निष्पदसि वरुणस्ताशव्रतापयतो नेत्रावर्णया ध्वरेण धर्मणा भर्चिषे शोचिषे त्वा ज्योतिषे त्वा तपसे त्वा अभीमम् महिनादिवम् नेत्रापभूपसप्रसाः श्रवसा मित्रस्य निर्षणे धृतः सर्वस्य सानसिम् निम्नम् चित्रश्रवस्तमम् सिद्धेयेका देवस्ताजमितोऽल्पदो सुपानिष्वम् गुरिः उपाहृतशक्त्या अपद्यमानः पृथिव्या आशासावृणा उत्तिष्ठबृहन् भवस्तिष्ठध्रुवस्तम् सोऽयस्य त्वारिक्षुषाङ्गेक्षेरे साधवे हेता सप्शप्ते त्वा भोक्ते हे त्वा विनवः उमामुष्यायणम् विषा वृषुभिर्ब्रह्म वर्तते नर्योहामि त्वाच्छन्दसा क्षणद्मेण त्वाच्छन्दसाक्षणद्मे नागदेन त्वाच्छन्दसाक्षणद्मे क्षणत्ववागृणक्तृत्वागृणत्वन्धिवाजम् सन्ध्योर्जम् छन्धिहविः देवपुरस्तरसङ्ख्या सन्त्वा ब्रह्मन् प्रवर्गेण प्रचरिष्यामः ओदर्धर्ममभिष्टिः अग्ने द्रोहिणोरोडादाधिश्रया प्रतिप्रस्थादर्विहरा प्रस्तोतः सामाणिगाय युजर्युक्तम्भिरात्र हन्त्वा विश्वेयदेवेऽरनुमतम् वरुद्भिः दक्षिणाभिप्रतम् पारयिष्णम् स्तो हन्तु समानुगन्धे निर्णीयमानः भोर्भवस्सुवः ओमिन्द्रवन्तः प्रजरता ब्रह्मण् प्रजरिष्यामः ओदधर्मभृष्टिः हिमायत्वा मुखायत्वा सूर्यस्य हरधे यत्वा प्राणाय स्वाहा व्यानायस्वाहाणायस्वाहा चक्षुषे स्वाहा श्रोत्राय स्वाहा अनधे स्वाहा वाचेधरस्पत्ये स्वाहा रक्षाय स्वाहा क्रतवे स्वाहा ओचेवाहा बलाय स्वाहात्वाध्वानक्तो महाकुम्पधि शोचस्पदेश्रदर्शनम् अञ्जन्दियम् रथयन्तो न विप्राः प्रभावः विसर्णपुत्रवरिप्रेष्ठः आधर्मो अग्निमृदयन्नसादीन् अनाधर्ष्यापुरस्तान् अग्नेराधिपत्ये आयुर्मेधाः पुत्रवके दक्षिणः इन्द्रस्याधिपत्ये प्रियाम्मेधाः सुहृदापश्चात् देवस्य च वितराधिपत्ये कालम् मेधाः आश्रुतिरुत्तरः विनित्रावर्णयोनाधिपत्ये स्वत्रम् मेधाः विशितिरुपरिष्टात् बृहस्पेनाधिपत्ये ब्रह्ममेधाः कर्त्रम् मेधाः तेजोमेधावर्चोमेधाः यशोमेधास्तपोमेधाः मनोमेधाः मनोरस्माय भोरिपुत्रा विश्वाहाभ्यो माष्ट्राभ्यपाहि हो यामाहिः तपोष्टर्गे अन्तरागम् अमित्रान् तपाशुंसमरुषः परस्य तपावसो चितानोष्टान्ते तिष्ठन्ता मदना अयातः चित्रस्थवचितः स्वाहा वरुभ्यपयश्रे स्वा उन्मा अधि अन्तरिक्षस्यान्तर्भिरसिपश्राय स्वाभिम् आव्यायः इवर्धमानः यदा भूयिष्ठभाजोधते स्याम शुक्रन्ते अन्यत्र यतन्ते अन्यदे विषरोपे अहके ज्यौरिवाहे विश्वाहि मायावहि स्वः भद्रादे पोषम् निहरादिरस्तु अलिहन्विपर्यकानिधन्व अलिहन्निष्कङ्गजनम् विश्वलोकम् अर्हन् निकन्देदयविश्वमद्भुवम् अभावो योरुधर्तुरस्ते गायत्रमधेष्टभमधे जागतमथे तथप्रादभामनस्यमानः अग्निष्ट्वा वचस्ताराद्रोजेरुगायत्रे नन्दो इन्द्रस्त्वारुद्धेदक्षिरतो रोजे रुद्धेष्टुभेन छन्दधा समारुजितो रोधय वर्णस्त्वारित्ते पश्चाद्रोजेजागते न छन्द समारुचितो रोजया विपानस्त्वा मारुतोमरुभ्यर्थरतो रोजयृत्वानुष्टुभेन छन्दधा समारुचितो रोजया बृहपरिता विश्वे देवे वरिष्ठा द्वौ धान्ते सन्दसा समार्जितो राजयाम् देवधर्मदेवेष्वधि रोचदीयाहम् मनुष्येषु पौला धर्मम् देवेष्वायष्मागत्यैजस्मे ब्रह्मवर्चस्यसि ऋतोऽहम् मनुष्येष्वायुष्मागत्यैजस्मे ब्रह्मवर्चसि भूयासम् रुजम् मयिधेहि मयुरे दश पुरस्परा त्रोचसे दशदक्षिणा दशप्रत्यङ्गोदङ् दशोर्ध्वस्यमानः अनस्तम् राजिभमोर्जम् धेः बाजी बाजिने पस्वशो धर्मोर्गीया अवश्यम् गोपामनिपद्यमानम् आरतराजप्रशनन्दम् अत्र प्रापेः हनुवान् देवगीतये समग्निरग्निनागता सन्देवेण समित्रः स्वकं सौर्येण रोचते स्वाहा समग्निस्तमसागता सन्देवेन समित्रः स्वकं शौर्येणालोचिष्टा धर्ता यमांसा दृशः पृथिव्या धर्ता पुरोगन्तरिक्षस्य धर्ता भक्ता देवो देवानाः अमर्त्यस्तभोजाः रे मनसे त्वा ग्ले त्वा सूर्यायत्वामलध्वरम् कृषि निविदेवे गोत्रायच्च विश्वाजाम्भुवाम् पदे विश्वस्य भुवनस्पदे विश्वस्य मनसस्पदे विश्वस्य नखशस्पदे विश्वस्य तपनस्पदे विश्वस्य ब्रह्मणस्पदे विश्वा देवश्रोस्तन्देवघर्मदेवान् पाहि तपोविराम् वाचमष्टेण नियच्छ देवायुवम् गर्भो देवाना पितामदीना रजः प्रजाना मयः कवीना सन्देवो देवेन सुरित्रायदिष्टा सर्वगम् धौर्येणारुक्ता आयुद्रास्त्वमस्मभ्यम् कर्मवत्योदासि पितानासि पिताना बोधा आयुद्धास्तनोधापयोधाः प्रत्योदावरिबोदार्तविनोदाः अन्तरिक्षपोदावरीयाशिमहित्वा मामाभिः गृहपुचर्विषामधे विश्वासाम्मानुषीणा शतम् बोर्ध्यविष्टवाक्यगुम्भदः समेद्धागम् शतगुम्भिमाः रन्द्राविणगुम्हादिवानम् इहैव रातयः सन्तो पुष्णे मदेते सवेय सुरे तारे चोदधाना वीरम् विदेतमसन्दशे माहविम् रायष्टोषेण वियोषम् देवस्यत्वादविदप्रसवे अश्विः बाहुभ्याः वोष्टाहस्ताभ्यामादरे अदित्येनाश्नादि इडयैः अविदयैः सरस्वक्त्यैः असावैः असावेः असावेः अदित्या पुष्ण्येषमते वायुरस्तेणः अश्वभ्याम् प्रदापया यस्ते स्तरश्रयोमयोः येन विश्वामुष्यशिवाल्यानि यो हरत्रथावसवेद्यः सुतर्त्रः स्तरस्वधाघर्मकं शिगंष पुष्वधर्मम् पाहि धर्माय जिगंष रहस्तयस्तोपसेगतो पड़ित दानवस्त्रभैरवः ुभ्याम् बिन्वस्व परस्पत्ये बिन्वस्वष्णे बिन्वस्वस्पदये बिन्वस्व इन्द्राय बिन्वस्व इन्द्राय बिन्वस्व दायत्वमधे सहो भागेन गमेः इन्द्राश्रिनामधुरस्य रघस्य घर्मम् पादवसोविदटे स्वाहायश्च रश्मजय वृष्टिवलये जहोमि वधुहविरथि सूयश्च तमस्तवृथिवीभ्याम् वा परिगृह्णामि अन्तरिक्षेण त्वोपगच्छामि देवानान् पानामनमतोऽयम् हेजोधि तेजोप्लेः द्विस्पृङ्माहिगुंसे अन्तरिक्षप्रङ्गामाहिगुंसे द्विस्पृङ्माहिपुंसे धुवर निधुवर्मे यच्च निमयच्च निवोमापाहे समुद्राय त्वावाता यस्वाः सलिलाय त्वावाता यस्वाः अनादिश्याय त्वावाता यस्वाः साकुजदृष्याय त्वावाता यस्वाः अवश्यवे त्वावाता यस्वाः अग्नये त्वावसुमदे स्वाहा होमायत्वा रुद्रपदे स्वाहा वरुणाय त्वा नित्यपदे स्वाहा बृहस्पदये त्वा विश्वदे स्वाहात्रे त्व प्रभमदे विभमदे प्रभमदेवाजपदे स्वाहायत्वाङ्गिरस्वदे विजपदे स्वाहा विश्वा स दक्षिणसदे विश्वान् देवालया स्वाहाकृतस्य घर्मस्य मधोहाप्युपदमश्विना स्वाहाग्नयज्ञियाय संयजुर्भिः अश्विना घर्मम् पातकम् हार्दिपानम् अहर्दिवाभिरोचुभिः अनुपान्द्या वा पृथिगे मगुम् साताम् स्वाहेन्द्राय स्वाहेन्द्रावजघर्मम् पाकमश्विना हार्दिपानम् अहर्दिवाभिरोचुभिः अनुपान्द्या साता तम् प्राज्ञै यथावत् नमो दिवे नव पृथिव्यै द्विविधा इमयज्ञम् यज्ञमिमम् द्विविधाः दिवम् गच्छ अनन्तरिक्षम् गच्छ पृथिवीम् गच्छ पञ्चप्रतिशो गच्छ देवान् धर्मपाम् गच्छपाम् गच्छः ब्रह्मणेबेभिः कर्त्रायबिभिः अद्याप्येभिः औषधेभ्यप्येभिः वनस्पदेभ्यप्येभिः सुभूताय वेभिः रमिमवन्तसाय वेभिः यजमानाय वेभिः अत्यन्तेच्छाय देभिः इष्टेये त्वा निम्नाय त्वा इन्द्रियाय त्वा भोक्तेये त्वा धर्मा सु ब्रह्माणि धारय कर्तानि धारय विषन्धानया न त्वापादस्कन्दया च अमुष्यत्वा प्राणे सादयामि अमुना दहनिरथस्मान्द्वेत्ते तम् च वयम् दुष्मः स्वाहा ग्रामभ्यस्वाः पृथिवेभ्यस्वाः पृथिवेभ्यास्वाहा रुद्राय रुद्रहात्रे स्वाहा अहर्जोदकेतनायुषताम् सृजौर्जालिरागस्वाः ऋज्जालः केदनायुषताम् सृज्यादिर्जालिरागस्वाहा अपि परो माह्वारात्रिये मा पाहि एषा ते अग्ने समिते तया समेध्य स्म आयम् वेदाः भर्तसामाञ्जेः अपि परोमारात्रियाह्न मा ये जे अग्नेया स आयुर्मे वर्तसाजे अग्नौदिस्वाहाजुर्जा सौर्यस्वाहा इंद्रत मेंशा देश मधुमत पिमद अङ्गिरस्पदस्वसाविनः अशेवहि माहिः स्वाहाभ्यः स्वाहात्रेभ्यः घर्मया ते दिविषुग यागायत्रे छन्दसे याब्राब्रह्मणे याः विधाने कान्तयेतेना वेजे स्वाहा धर्मयातेऽन्तरिक्षेषु गात्रयत्वभे या छन्दसे यानायन्ये स्वाहायादे पृथिव्यागुंशुक या जागते छन्दसे या वैश्ये या सदसि तान्तरेनावेदे दे स्वाहा अनुनाज्ञानपतिः अन्वितनपरे निवस्तापरस्वायाः अन्तरिक्षस्य नवरूपाहि पृथिव्यास्ता धर्मणा अयमक्रामानुविदायनव्यस्तावनस्वायाः क्षत्रस्य तनुमपाहेस्वाधर्मणः वयमक्रामायिनव्यणस्य त्वावनस्वाये चक्षुरस्तनुमप्पाहे स्वाधर्मणः वयमक्रामायिनव्यिधायाः चमक्षे क्त्यन्नाभिरुश्वादिप्रधाः अपद्यः अन्यत्रिमः धर्मेदत्तेऽन्नमेतत्पुलेशम् तेन बद्धस्वचाद्यायस्व बद्धिजेमहियम् आदप्याभिजेमहिर्नामादिव्याजम् धर्मः तस्य च पद्रध्वविधानम् ऋद्वाधिमये सम्भ्राणेन सम्भक्तः सम्बैला संनोपत्यना तदंराएस्मोजना तदोपान्गस्ति इंद्रेन्द्रिष्पा अयकरत्राहये पानमित्रानवरसदा भगंसोव्यणोजले त्रसुखं कयोये इन्द्रनक्षसेनावा किरणवक्तसुनावरण्या महांतसथे दिवायत्तकः नमस्ते सुवामायुन्दे ङ्गम् <Sessly> धर्वानि इन्द्रलक्षम् परिजानादहीनम् एतत्तम् देवधर्म देवो देवानुपागाः मनुष्यो मनुष्यामित्रा तस्मै भूयासो च भयम् दुष्मः अग्ने जनप्रवाच